अथ एकत्रिंशोऽध्यायः वैशंपायनवाचा उवाच तथैव सह देवोऽपि धर्मराजेन पूजितः महत्या सेन या राजन् प्रययो मत्स्यराजं च कौरव्यो वशे चक्रे बलाद् अधिराजाधिपं चैव दन्तवक्रं महाबलं जिगायकरदं चैव कृत्वा राज्ये न्यवेशयत् सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् तथैवापरमत्स्यांश्च व्यजयत् सपट्चरान् निषादभूमिङ्गो शृङ्गम् पर्वतप्रवरं तथा तरसैवाजयद्धीमान् श्रेणिमन्तं च पार्थिवम् नरराष्ट्रं च निर्जित्या कुन्तिभोजमुपाद्रवत् प्रीतिपूर्वं च तस्यासौ प्रतिजग्राहशासनम् ततश्चर्मण्वती कूले दम्भकस्यात्मजं नृपं ददर्श वासुदेवेन शेषितं पूर्ववैरिणा चक्रेतेन ससङ्ग्रामं सह देवेन भारत सतमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ सेकानपरसेकांश्च व्यजयत्सु महाबलः करं तेभ्यः उपादाय रत्नानि विविधानि च ततस्तेनैव सहितो नर्मदामधितो ययौ वृन्दानुविन्दावावन्त्यौ सैन्येन महतावृतौ जिगाय समरे वीरा वाश्विने ततो रत्नान्युपादाया पुरं भोजकटं ययौ तत्र युद्धमभूद्राजन् दिवसद्वयमच्युता सविजित्यदुराधर्षं भीष्मकं माद्रिनन्दनः कोसलाधिपतिं चैव तथा वेणातटाधिपम् कान्तारकांश्च समरे तथा प्राक्कोसलान्नृपान्नाटकेयांश्च समरे तथा हेरम्बकान्युधि मारुधं च विनिर्जित्या रम्यग्राममथो बलात् नाचीनानर्बुकांश्चैव राज्ञश्चैव महाबलः तां स्तानाटवितां जयत्पाण्डुनन्दनः वाताधिपं च वशे चक्रे महाबलः पुलिन्दांश्चरणे जित्वा ययौ दक्षिणतः युयुधे पाण्ड्यराजेनादिवसं न कुलानुजः तं जित्वा स महाबाहुः प्रययौ दक्षिणापथं गुहामासा दयामास किष्किन्धां लोकविश्रुताम्